नमस्सर्वेभ्यः अस्माकं युगनिष्ठजीवनम् इति वर्गे भवतां सर्वेषां स्वागतम् अत्र एकं श्लोकं श्रावयितुम् इच्छामि श्रुतिविभिन्नाः स्मृतयः विभिन्नाः नैकमुनिर्यस्य मतं न भिन्नं धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः सः पन्ताः इति श्लोकः अस्ति श्रुतिविभिन्नाः स्मृतयः विभिन्नाः नैकमुने यस्य मतं न भिन्नं धर्मस्य तत्वं निहितं गुहायां महाजनो येन गतः सः पन्ताः तर्हि अत्र धर्मस्य तत्वं निहितं गुहायां तत्र गुहा इति उक्तं तत्र गुहा इत्युक्ते हिमालयपर्वते कुत्रचित् गुहा इति गुहा इति नास्ति गुहा इति इत्युक्ते हिमालयपर्वते केव् इति के नास्ति अर्थः अत्र धर्मस्य मूलतत्त्वम् अस्माकम् अहं बोधे वर्तते अहं बोधे वर्तते तर्हि अत्र श्लोके मुनिः ना इति अत्र उक्तं खलु नैक न एकः मुनिः यस्य मतं न भिन्नं तर्हि अत्र मुनिः इत्युक्ते कः अर्थः इति चेत् अत्र सामान्यतया मुनिः इत्युक्ते मुनिः इत्युक्ते संलीनमानसः मुनिः संलीनमानसः यः सर्वदा परमपुरुषस्य विषये चिन्तनं करोति परमपुरुषस्य भावं स्वीकरोति एवं कृत्वा कृत्वा कृत्वा तस्य मनः एकाग्रम् अस्ति तादृशः एव मुनिः इति वयं वदामः न तु मुनिः इत्युक्ते दुग्धबालकः यः दुग्धं पिबति न तु सादृश परन्तु मुनिः इत्युक्ते संलीनमानसः यस्य मनः परब्रह्मणि लीनं वर्तते तादृशः एव मुनिः इति अस्मिन् श्लोके मुनिः इत्युक्ते कः इति इति चेत् अत्र मुनिः इत्युक्ते पण्डितः अर्थे प्रयुक्तः अस्ति इत्युक्ते ये पण्डिताः सन्ति तेषां भिन्नभिन्नमतानि सन्ति तादृशः एकः नास्ति यस्य मतं भिन्नं नास्ति इत्युक्ते तादृश यः ज्ञानी अस्ति यः पण्डितः अस्ति सः सर्वदा किं चिन्तयति इत्युक्ते तत्र तत्र वास्तविकतत्त्वं किम् इति ज्ञातुं प्रायेण तस्य आशा नास्ति सः किं चिन्तयति इति मम ज्ञानम् अन्यस्य अपेक्षया इतोपि सम्यक् अस्ति कथम् अहं वादे अन्यान् अन्यस्य पराजयं करोमि इति ता तादृशचिन्तनं भवति यतोहि तस्य अहङ्कारः वर्धितः भवति खलु ज्ञान ज्ञानार्जनेन अधिकं ज्ञानं ज्ञानं सम्पादयित्वा तादृशपुरुषस्य पण्डितस्य अहङ्कारः वर्धितः तर्हि तस्य चिन्तनं सर्वदा किं भवति इति चेत् वादे अन्यस्य पराजयः कथं भवेत् इत्येव तस्य चिन्तनं भवति तत्त्वस्य वास्तविकतत्त्वस्य विषये तस्य प्रायः न स्यात् इति एवं रीत्या तादृशमुनयः ये ज्ञानिनः सन्ति ते बहवः सन्ति तेषां मतानि भिन्नभिन्नमतानि सन्ति तर्हि तादृश एकः अपि मुनिः नास्ति पण्डितः नास्ति यस्य मतं भिन्नं न भिन्नं न तर्हि इदानीं बहु किमपि अस्ति तर्हि एतत् सर्वं दृष्ट्वा जनाः भ्रमिताः भवन्ति तत्र कुत्र कथं मया प्राप्तिः कथं भवितुमर्हति इति जनानां भ्रमः वस्तुतः अत्रतु तु धर्मस्य तत्वं तत्र तु निहितं गुहायां तत्तु गुहायां गूढरूपेण अस्ति अस्मासु अस्ति अस्मासु गूढरूपेण अस्ति परन्तु वयं न जानीमः तदर्थं तत्र उक्तमस्ति महाजनः येन गतः महापुरुषाः येन यस्मिन् मार्गे महापुरुषैः गतं तद् तं मार्गं वयं स्वीकुर्मः चेत् तदानीं तत्र तत्त्वस्य बोधः भवति तत्त्वस्य बोधः भवति तदर्थं तत्र उक्तमस्ति मुनिः इत्युक्ते पण्डितः इति न अर्थः पण्डिताः वास्तविकमुन् न अत्र मुनिः इत्युक्ते संलीनमानसः इत्युक्तं संलीनमानसः तर्हि तदर्थं किम् अस्माभिः किं करणीयम् चेत् अन्तः अस्मासु अन्तः अस्माभिः गन्तव्यं साधनाद्वारा अन्तः गन्तव्यं यदा वयम् अन्तः गच्छामः महा महाजने जनेन यः मार्गः आश्रितः तं मार्गं वयमपि तं वयमपि प्राप्तुं शक्नुमः hmm. इति अस्ति अत्र अत्र अत्र मुनिः इत्युक्ते केवलं यः केवलं यः अधिकं बहु किमपि वदति परंतु स्वस्य स्वानुभवः नास्ति भ्रमणः विषये अपि अधिकं वदति परन्तु स्वानुभवः नास्ति स्व नास्ति तर्हि तादृशपुरु पण्डितः तस्य कीदृशभावः भवति इति चेत् तस्य सर्वदा भावः कथं भवति इति चेत् अन्यस्य पराजयः कथं भवेत् तत्रैव तस्य चिन्तनं भवति यद्यपि अन्येन केनचित् किमपि सम्यक् एव उक्तमस्ति तर्करूपेण सम्यक् एव उक्तमस्ति सर्वं सम्यक् अस्ति तथापि यः पण्डितः अस्ति तस्य अहङ्कारः अस्ति इति कृत्वा सः किं चिन्तयति इति चेत् ओ तस्य अन्यस्य पराजयः मया करणीयः कथञ्चित् करणीयः इति चिन्तयति वस्तुतः तत्र धर्मस्य तत्वं कथं वयं प्राप्तुं शक्नुमः इति चेत् इत्युक्ते तत्र भक्तिभावं विना केवलं ज्ञानेन अहङ्कारः एव वर्धते तर्हि केवलं ज्ञानं हानिकारकं भवति भक्तिः अपि अपेक्षिता अस्ति परमपुरुषं प्रति भक्तिः अपेक्षिता अस्ति ये जनाः केवलं ज्ञानार्जनं कुर्वन्ति भक्तिभावं विना तर्हि तत्र स्वस्य स्वस्य क्षेत्रे अथवा स्वस्मिन् क्षेत्रे ते इतोपि ज्ञानं सम्पादयन्ति तर्हि किं भवति इति चेत् तत्र तु ज्ञानार्जने एव अधिक प्रामुख्यता भवति न तु तत्त्वस्य सत्यस्य सत्त्वस्य अन्वेषणम् इति तत्र प्रामुख्यता प्रामुख्यता न भवति तर्हि तादृशजडज्ञानी यः वर्तते तस्य तु अग्रगतिः न भवति यतोहि अन्ततो गत्वा तस्य अहङ्कारः वर्धितः भवति अहङ्कारः यत्र अस्ति तत्र तु परमपुरुषः कदापि न भवितुम् अर्हति यदा अहङ्कारः अस्ति अहम् अहम् इति अहङ्कारः अस्ति तस्य तु परमपुरुषप्राप्तिः कदापि न भवति भक्तिभावं विना केवलं ज्ञानं हानिकारकम् अस्ति अतः अत्र कीदृशभक्तिभावः अपेक्षितः इत्युक्ते तादृशभक्तिभावः अपेक्षितः अस्ति यत्र किमपि तत्र कस्य कस्यापि अपेक्षा कस्यापि अपेक्षा किमपि न प्रार्थयामः परमपुरुषं प्रति एतद् ददातु तद् ददातु किमपि नास्ति केवलं परमपुरुषस्य कृप्त्यर्थं परमपुरुषस्य प्रीत्यर्थं वयं भक्तिभावं कुर्मः तादृशभक्तिभावः यदा यस्य पुरुषस्य हृदि वर्तते तत्र हरिः अपि तत्र हरे हरेः वासः तत्र भवति हरेः वासः भवति यस्य मनसि अन्य आकाङ्क्षा नास्ति अन्य आकाङ्क्षा नास्ति इत्युक्ते एतत् एतदपेक्षितं तदपेक्षितम् इति किमपि नास्ति अन्य आकाङ्क्षा नास्ति केवलं परमपुरुषस्य तोषणं मम आनन्दः भवतु इति अपि आशा नास्ति इत्युक्ते शुद्धा भक्तिः इत्यत्र एकः अस्ति एकः प्रकारः अस्ति तत्र यस्य हृदि आशा अस्ति अहं भक्तिं करोमि येन मम मनसि आनन्दः भवतु इति जिज्ञासा भवति तादृशभक्तिः अपि शुद्धाभक्तिः एव परन्तु तस्यापि अपेक्षया इतोपि उत्तमा भक्तिः का इति चेत् यत्र कोऽपि जिज्ञासा एव नास्ति किमपि नास्ति तत्र केवलं यत्किमपि सः करोति केवलं परमपुरुषस्य तृप्त्यर्थं परमपुरुषस्य यन्त्ररूपेण सः सर्वं करोति केवलं परमपुरुषस्य तृत्यर्थम् इत्युक्ते सः सर्वदा ब्रह्मभावे एव भवति सर्वदा भवति ब्रह्मभावे प्रत्येकं क्षणे प्रत्येकं प्रत्येकस्मिन् क्षणे सः सर्वदा ब्रह्मभावे एव भवति तादृशपुरुषस्य सङ्गेन अस्माकं वर्धनं भवति तादृशपुरुषः एव मुनिः वास्तविकः मुनिः भवति यदा भक्तेः अपेक्षया ज्ञानम् अधिकं अस्ति तर्हि तादृशः मुनिः किं करोति इति चेत् स्वस्य स्वस्य यत्किमपि क्षेत्रम् अस्ति तस्य वर्धनार्थं सः प्रयासं करोति तर्हि अन्ततो गत्वा तत्त्वस्य ज्ञानं तस्मिन् न भवति यतोहि तस्मिन् अहङ्कारः इतोपि अहम् अहम्भावः इतोपि वर्ध वर्तते वर्तते अपि च वर्धते तादृशपुरुषः वस्तुतः अस्माकं तादृशपुरुषाः अस्माकं सहायकाः न भवन्ति यतोहि तादृशपुरुषस्य सङ्गेन अस्माकमपि अहङ्कारः वर्धितः भवति तर्हि तत्र यद्यपि अत्र बहु किमपि शास्त्ररूपेण अस्ति तत्र बहवः स्तुतयः बहवः स्मृतयः तत्र बहवः बह्व्यः स्मृतयः सन्ति तथापि अत्र किम् अवगन्तव्यम् इति चेत् महाजनः येन गतः सः पन्ताः तर्हि धर्मस्य तत्वं निहितं गुहायां धर्मस्य तत्वं निहितमस्ति गुहायां तर्हि अहम्बोधे धर्मस्य तत्वं निहितम् अस्ति तर्हि तर्हि तत्र परमपुरुषस्य प्राप्तिः कथं भवति इति चेत् यः लोके वसति परन्तु सर्वदा ब्रह्मभावे एव भवति तादृशपुरुषः एव यस्य हृदि भक्तिः अस्ति शुद्धा भक्तिः अस्ति Uh, तादृशपुरुषः एव परमपुरुषं प्राप्नोति एव अत्र uh, श्लोकस्य अर्थः अस्ति तर्हि इदानीं uh, किञ्चित् अग्रे गच्छामः अस्माकं uh, तरपत्रे तर्हि अत्र अस्माकं विषयः अस्ति अयं संसारः कः इति तत्र अस्माभिः सृष्टिचक्रमपि अस्माभिः दृष्टं तत्र षड्वादने इत्युक्ते तत्र क्रमद्वयम् वर्तते सञ्चरधारा अपि च प्रतिसञ्चरधारा इति सञ्चरधारायां द्वादशवादने परमपुरुषः अस्ति सगुणब्रह्म अस्ति ततः प्रकृतेः प्रभावात् क्रमेण मनः परमपुरुषस्य मनः ब्रह्मणः स्वगुणब्रह्मणः मनसः निर्माणं भवति तर्हि गुणस्य प्रथमं तत्र तमोगुणस्य प्रभावेन महत्तत्त्वम् आयाति तदनन्तरं तत्र रजोगुणस्य प्रभावेन मा अहं महत्तत्त्वे रजोगुणस्य प्रभावेन अहं तत्त्वम् आयाति अनन्तम् अनन्तरं तत्र क्षम्यतां प्रथमं सत्त्वगुणस्य प्रभावेन प्रकृतेः सत्त्वगुणस्य प्रभावेण तत्र महत्तत्त्वम् आयाति तदनन्तरं रजोगुणस्य प्रभावेन महत्तत्त्वे अहं तत्त्वमायाति तमोगुणस्य प्रभावेन अहं तत्वे चित्तम् आयाति इत्येवं रीत्या परमपुरुषस्य सगुणब्रह्मणः मनः निर्मितं भवति तदनन्तरं यदा तमोगुणस्य प्रभावः अधिकः भवति चित्ते तदानीं क्रमेण पञ्चभूतानां निर्माणं भवति तर्हि आहत्य तत्र आकाशात् वायुः वायोः अग्निः अग्नेः जलं जलात् पृथ्वी षड्वादने पृ पृथ्व्याः निर्माणं भवति तदनन्तरं षड्वादने यदा अनुकूलवातावरणमस्ति तदानीं तत्र तमोगुणस्य प्रभावेन तमोगुणस्य आधिक्येन स्थितितत्वे तदानीं क्रमेण जीवस्य निर्माणं भवति इति अस्माभिः तर्हि क्रमेण जीवाः वर्धिताः भवन्ति तत्र सस्यानि पशवः तदनन्तरं दशवादने मनुष्याः निर्मिताः भवन्ति तर्हि इदानीं मनुष्येषु तादृशसामर्थ्यमस्ति यतोहि मनुष्येषु चैतन्यस्य प्रतिबिम्बं सम्पूर्णतया वर्तते यदा मनः स्वच्छं भवति तदानीं चैतन्यस्य परमपुरुषस्य प्रतिबिम्बः सम्पूर्णतया मनुष्येषु वर्तते मनुष्ये मनुष्याणां मनसि चैतन्यस्य प्रतिबिम्बः भवति तर्हि तेषु स्वतन्त्र इच्छा वर्तते ते अग्रे गन्तुं शक्नुवन्ति दशवादनात् द्वादशवादनपर्यन्तं ते अग्रे गन्तुं शक्नु शक्नुवन्ति अथवा पशुजीवनस्य व्यवहारमपि ते कर्तुं कर, कर शक्नुवन्ति इति तेषां तत्र सङ्कल्प विकल्पद्वयं वर्तते यतः तत्र आ, यथा तत्र सरोवरे अथवा यत्र जलमस्ति तत्र जल जल स्वच्छमस्ति चेत् तदानीं तत्र चन्द्रस्य प्रतिबिम्बः यथा सम्पूर्णतया तत्र जले प्रतिबिम्बितः भवति चन्द्रः प्रतिबिम्बितः भवति जले तथा अस्माकं मनः शुद्धमस्ति चेत् तदानीं परमपुरुषस्य प्रतिबिम्बः तत्र भवति मनुष्येषु तादृशसामर्थ्यम् अस्ति यतोहि तेषां मनः अधिकं वर्धितम् अतः तादृशसामर्थ्यं वर्तते तेषाम् अग्रगतिः भवितुम् अर्हति ते यदि ते, ते, ते स्वतन्त्र इच्छायाः प्रयोगं कुर्वन्ति अस्यां दिशि तदानीं ते अग्रे गन्तुं शक्नुवन्ति दशवादनात् अग्रे गत्वा द्वादशवादने परमपुरुषस्य प्राप्तिः अपि भवति सगुणब्रह्मणः सृष्टिः लीला अस्ति तस्यां लीलायां तत्र लक्ष्यं किम् इति चेत् प्रत्येकं जीवस्य मुक्तिः भवतु इति एव लक्ष्यमस्ति तर्हि तदर्थं सगुणब्रह्म अस्माकं सहायम् अवश्यं करोति यदि अस्माकं स्वतन्त्र इच्छा अस्ति चेत् अग्रगतिः अवश्यं भवति तदर्थं किम् अपेक्षितम् इत्युक्ते अस्माकं सहायं सगुणब्रह्म करोति तदर्थं किम् अपेक्षितम् इति चेत् प्रथमतया अहं वन्दने अस्मि इति अवगमनम् अपेक्षितमस्ति यावत्पर्यन्तम् अहं वन्दने अस्मि इति अवगमनं नास्ति तावत्पर्यन्तं तत्र चेष्टा भवति अग्रगतिं प्राप्तुं चेष्टा न भवति तर्हि प्रथमतया तत्र अहं वन्दने अस्मि इति अवगमनम् अपेक्षितमस्ति यदा बन्धने अस्मि इति अवगमनम् अस्ति तदानीं तत्र साधना साधनायाः पद्धतिं ज्ञात्वा कश्चन साधनां कर् कृत्वा योगसाधनां कृत्वा तत्र अग्रगतिं प्राप्तुं शक्नोति तर्हि प्रथमतया तत्र अहं बन्धने अस्मि इति ज्ञानम् अपेक्षितमस्ति एतादृशज्ञानं पशुषु अन्येषु प्राणिषु नाभावति। तेतु ते अस्मि इति तेषां तु अवगमनं ते न तेषां मनः तादृशं वर्धितं नास्ति एतादृशसामर्थ्यं केवलं मनुष्येषु एव वर्तते केवलं ते अवगन्तुं शक्नुवन्ति यत् अहं बन्धने अस्मि इति यदा बन्धने अस्मि इति अवगमनं भवति तदानीं तत्र मुक्ति आकाङ्क्षा भवति मुक्ति आकाङ्क्षा यदा भवति तर्हि इतः इतः अग्रे पशुजीवनं मास्तु इति मुक्ति आकाङ्क्षा भवति यदा मुक्ति आकाङ्क्षा भवति तदानीं सद्गुरुप्राप्तिः अवश्यं भवति इत्युक्ते तत्र जिज्ञासा वर्तते मुक्तेः आकाङ्क्षा वर्तते चेत् तदानीं तत्र परमपुरुषस्य दायित्वं भवति तत्र प्रकटीकरणार्थं मार्गस्य प्रकटीकरणार्थं परमपुरुषस्य सगुणभ्रमणः दायित्वं भवति तदानीं स एव अस्माकं मार्गदर्शनं करोति अग्रगतिं प्राप्तुं तस्य माध्यमेन तस्य माध्यमेन अस्माकम् अग्रगतिः भवति तदानीं वयं चेष्टां कुर्मः वयं प्रयत्नं कुर्मः तीव्रप्रयत्नं कुर्मः अग्रगतिं प्राप्तुं तीव्रप्रयत्नं कुर्मः साधनाद्वारा तदानीम् अग्रगतिः अस्माकं भवति अस्मा इति तत्र अस्माभिः दृष्टमासीत् तदर्थं प्रथमतया किम् अपेक्षितम् इति चेत् वन्दने अस्मि इति ज्ञानम् अपेक्षितमस्ति यावत्पर्यन्तं वयं लौकिकजीवने एव वयं व्यस्तः भवामः तदानीं तत्र लौकिकजीवने यद् यद् वस्तु अस्ति अथवा यत्किमपि अस्ति लौकिकजीवने जीवने धनं वा यशः वा अथवा यत्किमपि भवतु तस्य प्राप् ते तस्य प्राप्तिः यदा भवति तदानीमेव अहं सन्तुष्टः अस्मि इति यदा अस्माकं मनसि तादृश ज्ञानम् अस्ति तदानीम् अग्रगतिं कर्तुम् अपि वयं प्रयासं न कुर्मः बन्धने अस्मि इति ज्ञानं नास्ति यदा अहं बन्धने अस्मि इति मम ज्ञानं भवति तदानीम् अहं प्रयत्नं करोमि तदानीम् आकाङ्क्षा भवति तीव्र आकाङ्क्षा भवति अस्तु इदानीम् इतः अग्रे पशुजीवनं मास्तु मुक्तिः मम मुक्तिः अपेक्षिता इति तत्र आशा आकाङ्क्षा भवति तदानीं तत्र सद्गुरु सद्गुरुप्राप्तिः भवति अग्रगतिः अपि अवश्यं भवति साधनाद्वारा इति तत्र तावदस्माभिः प्राप्तमस्ति यदा तत्र तादृश आकाङ्क्षा भवति मुक्ति आकाङ्क्षा भवति तदानीं तत्र इदानीं सगुणभ्रमणः दायित्वम् अस्ति अस्माकं साहाय्यं कर्तुं येन अस्माकं मुक्तिः भवति तर्हि तर्हि तत्र मनुष्यजीवनं किमर्थम् अस्ति इति चेत् साधनां कृत्वा ये ऋषयः आसन् वास्तविकऋषयः ये आसन् यथा ते साधनां कृत्वा अग्रगतिं प्राप्तवन्तः मुक्तिं प्राप्तवन्तः तथा अस्माभिः अपि साधनां कृत्वा अग्रगतिं प्राप्तुं शक्नुमः यदि एवं न भवितुम् अर्हति तदानीं तत्र सृष्टेः लक्ष्यमेव पूरितं न भवति यतोहि सिष्टेः लक्ष्यं किम् अस्ति मनुष्याणां तत्र सृष्टिः किमर्थं जाता इति येन तेषां मुक्तिः भवतु इति एव लक्ष्यमासीत् तद् निधाय एव सृष्टिः जाता तर्हि तदर्थं यदा अस्माकम् आकाङ्क्षा यदा सिद्धा सिद्धाः भवामः यदा मनुष्याः सिद्धाः भवामः पशुजीवनम् इति यदा तत्र मनसि दृढसङ्कल्पः भवति तदानीं तत्र परमपुरुषस्य दायित्वं भवति अस्माकं मार्गदर्शनं कर्तुं तर्हि अस्माभिः एतावत्पर्यन्तम् अस्माभिः प्राप्तमासीत् गतवर्गे तर्हि इदानीम् इतः किञ्चित् अग्रे गच्छामः अतः सगुणब्रह्म स्वसामर्थ्यनुसारं यावत् सम्भवम् जीवात्मनः प्रकृतिप्रभावात् मोचयति जीवात्मनः सृष्टेः अन्तिम अवस्थायां सन्ति अतः एव मनुष्याणां चैतन्यम् स्पष्टतया प्रतिबिम्बं वर्तते मनुष्येषु विस्तारः सम्पूर्णः नास्ति तथा च मनुष्याः प्रकृतेः गुणसिद्धान्तानां बन्धनात् सर्वथा मुक्तिम् प्राप्तुम् असमर्थाः भवन्ति किन्तु मनुष्येषु चैतन्यम् स्पष्टतया प्रतिबिम्बं भवति ते स्वस्य वशीकरणं भवति प्रतिबिम्बितं भवति ते च स्वस्य वशीकरणं साक्षात् कर्तुं समर्थाः भवन्ति स्वमुक्तिप्राप्तये साधनभ्यासार्थं प्रयत्नं कर्तुम् अनेन अनेन अईव... एव तैः सामर्थ्यम् अपि प्राप्यते साधनां कर्तुं समर्थानां मनुष्याणां निर्माणस्य अभिप्रायेण एव सगुणब्रह्म प्रकृतिप्रभावे आगतम् एतां स्पृष्टिं निर्मातुम् अतः मनुष्याः केवलं साधनां कर्तुं मुक्तिं प्राप्तुं च आसन् यद्यपि मनुष्याः साधनार्थम् एव निर्मिताः तथापि ते मु, तेषां मुक्त्यर्थं साधनां न कुर्वन्ति अतः एते परमपुरुषस्य इच्छाविरुद्धं गच्छन्ति एते मनुष्याणां सृष्टेः प्रयोजनम् एव पराजयन्ति अत्र सगुणब्रह्म तु सर्वेषां जीवानां कृते मुक्तिः इच्छति किन्तु अन्यप्राणिनां कृते तस्य अवसरं न भवति केवलं मनुष्याणां कृते एव एष अवसरः प्राप्तः अतः मनुष्याणां सर्वेषां कर्तव्यमस्ति ते मुक्त्यर्थं साधनां कुर्वन्ति अपि च प्रयत्नं कुर्वन्ति अन्यथा सृष्टेः प्रयोजनम् एव न सिद्ध्यति मनुष्याः सर्वे तेषां सामर्थ्यम् अपि वर्तते ते साधनां यदि कुर्वन्ति तदा तेषां चित्तं शुचि भवति पवित्रं भवति तत्र चैतन्यस्य सम्पूर्णं प्रकाशं प्रकाशयति अतः तेषां परं कर्तव्यमस्ति साधनाद्वारा स्वस्य चित्तं स्वच्छी कर्तुं प्रयासं कुर् प्रयासं ते कुर्वन्ति अपि च यदा तेषां चित्तं सम्पूर्णतया प्रकाशं भवति तदा परमपुरुषस्य सम्पूर्णप्रतिबिम्बं तत्र स्पष्टतया प्रकाशते तदा ते परमपुरुषस्य साक्षात्कार कर्तुं समर्थाः भवन्ति अतः यदि ते साधनां न तदा स्पृष्ट्याः प्रयोजनम् एव न सिद्ध्यति इति किमपि वक्तव्यं वा यदि किम् अहं न उक्तवती तदा भवती स्पष्टीकरोतु अस्तु अस्तु भगिनि समीचीनं तर्हि अयं परिच्छेदः बहु मुख्यः अस्ति तर्हि तत्र अत्र सञ्चरधारा अपि च प्रतिसञ्चरधारा प्रतिसञ्चरधारायां तत्र स्थूलात् सूक्ष्मपर्यन्तं गमनम् अस्ति तत्र सत्त्वगुणस्य प्राधान्यं भवति प्रतिसञ्चरधारायां तर्हि क्रमेण क्रमेण जीवाः प्रकृतेः बन्धनात् मुक्ताः भवन्ति यदा दशवादने मनुष्याणाम् आविर्भावः भवति तदानीं मनुष्येषु पूर्णतया चैतन्यस्य प्रतिबिम्बः वर्तते परन्तु तथापि तत्र इतोपि तत्र सूक्ष्मता आवश्यकता अस्ति सूक्ष्मतायाः आवश्यकता अस्ति तर्हि सम्पूर् यद्यपि तत्र यदा मनः स्वच्छं भवति तदानीं परमपुरुषस्य चैतन्यं सम्पूर्णतया प्रतिबिम्बितः भवितुम् अर्हति सामर्थ्यं वर्तते परन्तु यदा मनः स्वच्छं नास्ति मनसि षड्रिपवः अष्टपाशाः यदा तैः यदा मनः वन्धितं भवति अथवा तैः मनः बद्धं भवति तदानीं तत्र मनुष्याः प्रकृतेः बन्धनात् विमुक्तः न भवन्ति तर्हि तदर्थं यद्यपि सामर्थ्यं वर्तते एतादृशसामर्थ्यम् अन्येषु नास्ति यद्यपि चैतन्यं मनुष्येषु सम्पूर्णतया प्रतिबिम्बितं वर्तते परन्तु यावत्पर्यन्तं मनुष्यः अहं अस्मि इति नावगच्छति तावत्पर्यन्तं तस्मिन् सामर्थ्यं न भवति साधनां कर्तुं तर्हि एतादृश इच्छाम् आधारीकृत्य एव तत्र वस्तुतः सृष्टि सृष्ट्यां तत्र सगुणभ्रमणा प्रकृते सगुणभ्रमणा प्रकृतेः प्रभावे सगुणभ्रमणा आगतम् अस्ति यतोहि एत लक्ष्यमस्ति एतत् तु लीला अस्ति इति वयं जानीमः लक्ष्यमस्ति यद् प्रत्येकं जीवस्य मुक्तिः भवतु इति एव लक्ष्यमस्ति प्रत्येकं जीवः साधनां कृत्वा मुक्तिं प्रापयेत् इति एव लक्ष्यमस्ति तर्हि ये जनाः वन्दने अस्मि इति न पशुव्यवहारे एव मग्नाः भवन्ति ते साधनामपि न कु कुर्वन्ति ये साधनां न कुर्वन्ति इति कृत्वा तत्र लक्ष्यं पर, पुरुषस्य परमपुरुषस्य लक्ष्यं तु साधना साधना करणीया इति अस्ति परन्तु मनुष्याः न कुर्वन्ति चेत् तदानीं परमपुरुषस्य इच्छाविरुद्धं ते गच्छन्ति तर्हि सृष्टेः लक्ष्यम् एव पूरितं न भवति लक्ष्यं पूरितं न भवति तर्हि अत्र क्रमेण सृष्टिक्रमः सञ्चरधारायां प्रतिसञ्चरधारायाम् सर्वं किमर्थं जातम् इति चेत् क्रमेण क्रमेण षड्वादनात् आरभ्य पुरुषः प्रकृतिबन्धनात् क्रमेण मुक्तः भवति तर्हि किमर्थम् एवम् अस्ति इति चेत् एतादृशक्रमः किमर्थम् अस्ति इति चेत् तर्हि अन्ततो गत्वा दशवादने तस्य अग्रगतिः भवतु यतोहि सत्त्वगुणस्य प्राधान्यमपि अस्ति तर्हि यदा वयमपि अस्माकं जीवने सत्त्वगुणस्य व्यवहारं कुर्मः तदानीं अ, तत्र एतद् एतद् नियमाः अस्माभिः चर्चिताः तेषां पालनं कुर्मः चेत् तदानीम् अस्माकं मनः अपि पशुजीवनात् पशुजीवनं त्यक्त्वा अत्र आध्यात्मिकजीवने आगन्तुं तत्र प्रेरणा भवति तर्हि तदानीं तत्र सामर्थ्यमपि अस्ति साधनां कर्तुं तर्हि अग्रगतिः तत्र अन्तिमचरणे अग्रगतिः अपि अवश्यं भव भवति तदर्थमेव एतत् सर्वं कार्यकारणभावरूपेण इयं सृष्टिः वर्तते अस्यां सृष्ट्यां सर्वस्यापि कारणं वर्तते सर्वस्यापि कारणं वर्तते इदम् अस्य कारणम् इदमस्य कारणम् इदमस्य कारणम् इति वयं वक्तुं शक्नुमः सर्वस्य कार्यकारणभावः अस्ति केवलं परमपुरुषं विहाय अन्यस्य सर्वस्य कार्यकारणभावः अस्ति तर्हि तत्र सङ्घर्षः द्वारा तत्र षड्वादनात् आरभ्य अत्र प्रत्येकं प्रत्येकस्मिन् सोपाने सङ्घर्षः अवश्यमस्ति सङ्घर्षः सङ्घर्षं सङ्घर्षस्य सङ्घर्षस्य आलिङ्गनं कृत्वा अस्माकम् अग्रगतिः भवति तर्हि तादृश अग्रगतेः सहायार्थं प्रकृतिः अपि अस्माकं साहाय्यं करोति यतोहि तत्र प्रतिसञ्चर्धारायां सत्त्वगुणस्य प्राधान्यम् अस्ति खलु तदर्थमेव तत्र अस्माकं वर्धितं शरीरं वर्धितं मनः वर्धितं मस् मस्तिष्कः मस्तिष्कः वर्धितः मस्तिष्कः सर्वम् अस्माकं लब्धमस्ति तेन अस्माकम् अग्रगत्यर्थं सौलभ्यं भवति अत्र एका व्यवस्था सर्वस्य एका व्यवस्था अस्ति अत्र परमपुरुषस्य नियमानुसारं सृष्टिचक्रं कार्यकारणभावसहितं प्रचलति तर्हि अत्र प्रतिसञ्चर्धारायां सत्त्वगुणस्य प्राधान्यं वर्तते यदा अस्माकं सङ्घर्षः अपि क्रमेण भवति तदानीं मनः वर्धितः भवति मनः वर्धितं भवति मनः इतोपि सूक्ष्मं भवति येन किं भवति इति मनसि ये षड्रिपवः अष्टपाशाः सन्ति ते तेषां सर्वेषां निवारणं भवति मनः स्वच्छं भवति यदा मनः स्वच्छं भवति सूक्ष्म सूक्ष्मं भवति तदानीं चैतन्यस्य प्रतिबिम्बः सम्पूर्णतया तत्र प्रतिबिम्बितः चैतन्यं सम्पूर्णतया प्रतिबिम्बितं भवति मनसि यदा तत्र लवणं यदा तत्र लवणस्य गोलः वर्तते तद्वयं समुद्रे क्षिपामः तदानीं लवणस्य लवण लवणं लवणं किं भवति इति चेत् तत्र समुद्रे सम्पूर्णतया लीनं भवति तस्य पृथक् करणं तस्य अस्तित्वमेव नास्ति पृथक्तया तत्र लवणं कुत्र इति अस्तित्वं नास्ति यदा तत्र मेलनं भवति तथा साधनायाम् अस्माकं मनः यदा मनः लीनं भवति तदानीम् अन्ततो मनः एव न मनः तस्मिन् यथा लवणस्य मेलनं भवति जले तथा अस्माकं मनः परब्रह्मणि लीनं भवति तदानीं मनः एव न भवति अहङ्कारः न भवति चित्तं किमपि न भवति तदानीं किम् अवशिष्यते इति चेत् केवलं परमपुरुषः एव अवशिष्यते तत् कथं कर्तुं शक्यते इति चेत् साधनाद्वारा कथं साधनाद्वारा कर्तुं शक्यते तदेव योगः इति वयं वदामः खलु योगः इत्युक्ते तदेव अस्ति योगः इत्युक्ते जीवात्मनः परमात्मनः ऐक्यं ऐक्यमेव योगः तत् कथं भवति इति चेत् एवमेव भवति यदा पृथक्करणं पृथक्तया अस्तित्वं नास्ति यदा पृथक्तया स्व अस्तित्वं नास्ति तदानीं केवलं किम् अवशिष्यते इति चेत् केवलं परमपुरुषः एव अवशिष्यते वयं स्वयं परमपुरुषाः परमपुरुषः वयं परमपुरुषरूपेण वयं भवामः तदर्थं तत्र साधनाम् अस्माभिः साधना अस्माभिः करणीया तदर्थं पद्मासने उपविश्य अन्तः अस्माभिः अस्माभिः गन्तव्यः एतदेव योगि योगसाधना इति वयं वदामः योगस साधनायां किं भवति इति चेत् स्व अस्तित्वस्य अन्तः भवति इदानीम् अहं रामः श्यामः इति एतादृशव्यवहारः न भवति स्व अस्तित्वमेव नास्ति यत्किमपि यः सः योगी अस्ति यः करोति यत्किमपि करोति सः परमपुरुषस्य यन्त्ररूपेण करोति परमपुरुषस्य यन्त्रं भवति तर्हि तत्रान्ततो गत्वा लवणम् इव सः तस्य मनः विलीनं भवति परमपुरुषे विलीनं भवति यः साधकः वर्तते तस्य सम्बन्धः परमपुरुषेण सह तस्य सम्बन्धः कथमस्ति इति चेत् तस्य सम्बन्धः भक्तरूपेण अस्ति तस्य प्रीतिः अस्ति परमपुरुषं प्रति तस्य गाढरूपेण प्रीतिः वर्तते तस्य कृते यः साधकः अस्ति तस्य कृते यत्किमपि सः करोति सर्वत्र ब्रह्म ब्रह्मणि एव विचरति ब्रह्मणि विचरति सः ब्रह्मचारी भवति यः साधकः अस्ति सः ब्रह्मचारी भवति सः ब्रह्मणी विचरति यत्किमपि प्रत्येकस्मिन् क्षणे यत्किमपि सः करोति सः ब्रह्मणः ब्रह्मभावं स्वीकृत्य करोति अतः स्वस्य अस्तित्वमेव नास्ति यदा सः साधनां न करोति साधनायां तस्य मनः विलीनं भवति इति अस्ति परन्तु यदा सः साधनां न करोति साधनां तु सर्वदा कर्तुं कर्तुं न शक्यते यदा साधनं न करोति तदानीमपि सः ब्रह्मभावे एव भवति प्रत्येकस्मिन् क्षणे यत्किमपि करोति सः भ्रमस्य ब्रह्मणः ब्रह्मणः यन्त्ररूपेण सः करोति अतः तत्र नूतनतया संस्काराः न उत्पद्यन्ते तस्य यतोहि यत्किमपि सः करोति सः ब्रह्मभावे एव करोति सः कर्ता नास्ति सः भोक्ता नास्ति यत्किमपि सः करोति ब्रह्मणः कृते करोति अतः यदा सः स्व कर्ता नास्ति भोक्ता नास्ति तदानीं तः सः केवलं तत्र साक्षिरूपेण सः सर्वं करोति केवलम् इत्येवं रीत्या करोति ब्रह्मभावं स्वीकृत्य करोति इति कृत्वा तस्य नूतनसंस्काराः न उत्पद्यन्ते एतादृश अवसरः तु अन्येषां प्राणिनां नास्ति यतोहि तेषां मनः वर्धितं नास्ति इति ते तु न अवगन्तुं शक्नुवन्ति यत् ते, शक्नु ते बन्धने सन्ति इति न अवगन्तुं शक्नुवन्ति ते साधनमपि कर्तुं न शक्नुवन्ति यावत्पर्यन्तं ते सृष्टिचक्रे अग्रगतिं प्राप्य तत्र दशवादने मनुष्यरूपेण तेषां जन्म न भवति तावत्पर्यन्तं तेषाम् अवसरः नास्ति अतः अस्माकं तु मनुष्यरूपेण जन्म जातमस्ति इति कृत्वा अस्माकं तु अवसरः अस्ति साधनां कर्तुम् अस्माकम् अवसरः अस्ति बन्धने अस्मि इति अवगमनम् अस्माकं तु भवितुमर्हति परन्तु पन पशूनां मनुष्य पशूनां पक्षीणां तु तादृश अवसरः नास्ति अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामः किं सरलाभगिनी पठति वा भगिनि नमस्कार मनुषी चैतन्यं मानसिकपटिकायां प्रतिबिंबित अस्त सगुण ब्रह्म उत्पन्न पंचभूत शरीर पटिखा पर चेतना, चेतना क्या आधार से वा शरीर से आश्रिता सगुण ब्रह्म मनुष्य सदृश शरीर नगुण ब्रह्म विचार प्रक्षेपणं सन्ति ते सगुणभ्रमण मनसः अन्तर्विद्यन्ते सगुणभ्रमन् अपि मनुष्यसदृशं शरीरं भवितुम् अर्हति स्म यदि तत् सगुणभ्रमण अन्यसतायाः मनसि विद्यमानं सत् तस्यां सतायां विचारप्रक्षेपणरूपेण अस्तित्वम् प्राप्त प्राप्तवत् स्यात् सगुणभ्रमण नैमित्तकम् अस्ति तस्य न आदि न च अन्तम् अतः तत् अन्यस्य मनसि स्थित्वा शरीरं प्राप्तुं न शक्नोति मनुष्येषु चैतन्यैतन्यस्य प्रतिबिम्बमात्रं भवति किन्तु सगुणब्रह्मण ब्रह्मणः चैतन्यं तु भूमाचैतन्य मनुष्याः अपि सगुणब्रह्म अंतकरण अंतर्मुखी मानसिकलंव कि सगुण मनस एकः एक अंश अस्त मनुष्य यथा यहा चेतना केवल भूम चैतन्य बहुलता मन भूम बहुलाव तावत्पर्यं so, man, uh, uh, uh, uh, साधु सो मन् मनुष्य मनुष्य वयं जानीमः यथा इदानीं भवती उक्तवती प्रतिसञ्चरधारायां वयं मनुष्य uh, दशवादने अस्ति तत्र अन अन्य जीवेषु अपेक्षा तस्य चैतन्यस्य मानसिक मानसिकपटिकायां या रूपी दर्पणं अस्ति तस्मिन् स्पष्टम् अस्ति इति मनुष्य उत्तमम् जीव अस्ति अन्य अन्ये अन्यजीवेषु अपेक्षाः सगुणभ्रमण कारणम् एव ई यत् मनुष्य शरीरं प्राप्नोति तत् पञ्चभूतैः निर्मितम् अस्ति इति स्थूलशरीरं यद् वयं पश्यामः किन्तु तस्मिन् अपि सूक्ष्मशरीरम् अस्ति तत् अस्ति तत मन तत् तत् मानसिक इति पटिकाम् अत्र लिखितमस्ति सूक्ष्मशरीर यत् अस्ति तस्मिन् भवति चैतन्यस्य प्रतिबिम्बं परन्तु भूमा चैतन्य चैतन्यकस्यापि आधारस्य वा शरीरस्य वा आश्रता नास्ति वयं जानीमः यदि सञ्चारधारां द्वाद द्वादशवादनात् तः आरभ्यः आरभ्य यत् त्रिवादने आगच्छति तत्र भूमाचैतन्य आगच्छति तत् प्रकृतिप्रभावेण यदि भूमाचैतन्यम् आगच्छति तत्र भूमाचैतन्य चैतन्य अस्ति तस्य कोऽपि शरीरं नास्ति तस्य इति कारणकी तत् सूक्ष्मता सूक्ष्मतमम् अस्ति यथा वयं स्थूलशरीरं जानीमः अपि सूक्ष्मशरीरं मन मन बुद्धिः अहङ्कारित्तं यत् अस्ति तस्मात् अपि सूक्ष्मम् अस्ति भूमाचैतन्य भूमाचैतन्यत् वयं जानीमः सूक्ष्मम् अस्ति सगुणब्रह्मणः अपि निर्गुणब्रह्मण भूमाचैतन्य यदि अस्ति तत् शरीरस्य कोऽपि तस्य कोऽपि शरीरं नास्ति सगुणब्रह्मणस्य इति मनुष्य यथा मनुष्यः अस्ति तथा तस्य सदृशशरीरं सगुणब्रह्म नास्ति वयं पूर्वं पठितवन्तः सगुणब्रमण कल्पना तस् सगुणब्रमण चित्ते इति कल्पना पूरण सृष्टिः अस्ति तस्य कल्पना अस्ति यत् साकार साकारं भवति यत् सृष्टिः वयं द्रष्टुं शक्नुमः ता सृष्टिः सगुणब्रमणकल्पना एव अस्ति अपि सगुणब्रमण वयं दृष्टवन्तः मनुष्य एव शरीरं तस्य नास्ति सगुणब्रह्म एका सत्ता अस्ति या निर्गुण ब्रह्म ब्रह्म प्रकृतिप्रभावेण इति आगच्छति तस्य कल्पना भवति तस्य विचारं कृत्वा तस्य सृष्टेः निर्माणं भवति वयं सञ्चधारां दृष्टवन्तः कथं क्रमेण भूमा चैतन्य तस्मात् पुनः अहं चैतन्य अहं चेत अहं भाव तस्मात् चित्तं चित, तदनन्तरं पञ्चभूतानि तेषां निर्माणं तदनन्तरं यदि प्रकृतेः तमोगुणस्य प्रभावम् अधिकम् अधिकं भवति तदनन्तरं पुनः प्रतिसञ्चरधारा इदानीं प्रचलति अनेन प्रकृतेः प्रभावः शनैः शनैः अपगच्छति कायी इति प्रथमम् आगत्य आगत्य जीव जीवरूपेण कायी तदनन्तरम् एक कोश जीव तदनन्तरम् अनेककोश कोशाः जीव, जीवा इति यै आगच्छन्ति तस्मात् अन्तिमं चरं चरम् अस्ति मनुष्यः अस्ति तत् मनुष्यकारणं भवति मनुष्यस्य यत् अस्ति तस्य कार्यकारणभावं वयं दृष्टवन्तः तस्य कारणम् अस्ति सगुणब्रह्मणकल्पना मनुष्यस्य निर्माणं किन्तु सगुणब्रह्मण सगुणब्रह्म कस्य कारणम् अस्ति कस्मात् कारणात् आगच्छति इति अत्र द दत्तमस्ति सगुणब्रह्मण कोऽपि कारणं नास्ति सगुणब्रह्म ब्रह्मणः तस्य कोऽपि कारणं नास्ति तस् किमपि कारणं किमपि कारणं क्षम्यतां किमपि कारणं नास्ति तत् अनैमितिकमस्ति अनैमितिकमिति कारणरहितम् अस्ति तत् इति कारणरहितमस्ति गतवर्गे वयं दृष्टवन्तः मनुष्यस्य शरीरं पञ्चभूतैः पञ्चीकरणं यत् भवति तस्मात् भवति किन्तु तस्मात् पूर्वं वयं तस्य यदि चत्वार भूतानि यत् अस्ति निर् निर्मितं तद् दानवशरीरम् अस्ति त्रि त्रयकोषाः त्रयभूत त्रीणि भूतानि यदि अस्ति तद् देव देवयोनि अस्ति तत्र किन्तु सगुणब्रह्म ब्रह्म तस्य कोऽपि योनि नास्ति तत् कारणरहित अस्ति तत् केवलं वयं जानीमः प्रकृतेः प्रभावेन निर्गुणब्रह्म सगुणब्रह्म सगुणब्रह्म निर्गुणब्रह्मयोग प्रकृतिः इति अस्ति प्रकृतिः अपि वयं जानीमः अनादि अस्ति किन्तु तस्य अन्तः भवितुं शक्नोति किन्तु अनादि अस्ति तथैव सगुणः प्रकृतेः अन्तः अपि नास्ति प्रकृतिः अपि अनादि अनादि अन्त अन्तरहितः अन्तरहितः अस्ति इत्युक्ते सृष्टौ केचन अंश इत्युक्ते सृष्टौ कतिचन अंशानां नाशः भवितुम् अर्हति परन्तु प्रकृतेः नाशः इति लयः भवति प्रकृतिः यदि लयः भवति इति न ना। ना, आ... ना, सम्पूर्णतया नास्ति केवलं केषाञ्चन अंशानाम् एव लयः भवितुम् अर्हति नाशः भवति सम्पूर्णसृष्टेः नाशः कदापि न भवति साधु प्रकृ सम्पूर्णतया नास्ति भगि न सम्पूर्णतया नास्ति सम्पूर्णतया नास्ति इत्युक्ते सृष्टिः सर्वदा प्रचलति सृष्टिः सर्वदा प्रचलति परन्तु सृष्टेः केषाञ्चन अंशानां तदा तदा नाशः भवति पुनर् पुनर्निर्माणं भवति तद्भवति परन्तु प्रकृतिः सर्व प्रकृतिः पुरुषस्य अंशः ब्रह्म ब्रह्मणि प्रकृतिपुरुषः द्वयमपि अस्ति खलु अतः यथा रामेन्द्रस्य शारदस्य उपरि अदो भागः यथा वर्तते तथा प्रकृतिपुरुषः तयोः पृथक्करणं कदापि न शक्यते अविनाभावसम्बन्धः शिवशक्त्यात्मकं ब्रह्म अतः प्रकृतेः नाशः इति वद वक्तुं न शक्यते अस्तु शिवशक्तिः सगुणभ्रमपि अनादि अनन्त अस्ति तस्य कोऽपि कारणं नास्ति तो केवलं किन्तु केवलं सग्ुणभ्रमणं भूमा मनसः एक अंशः अस्ति मनुष्यस्य मनः तो वयं पूर्व पूर्वं दृष्टवन्तः अनुचैतन्य बहवः अनेकाः अनेकाः सन्ति मिलित्वा तद् वयं तस्य सगुण ब्रह्मण ब्रह्मणि तत् तो एक एक एक मनुष्य एकैकजीव सगुणब्रह्म ब्रह्मणः एक एक अंश एव अस्ति इति वयं जानीमः सो मनुष्यस्य चेतना केवलं भूमाचेतनस्य बहुलता एव भवति तथा मनुष्यस्य मनः भूमा मनः बोला एव तो मनुष्यः एव मनुष्यजेतना अस्ति सा भूमचैतन्यस्य अणुचैतन्य एवम् अस्ति यत् मनुष्यचेतना अस्ति सा भूमचैतन्य वा सगुण ब्रह्म इव एव अस्ति तस्मात् भिन्नं नास्ति तु यत् प्रत्येक मनुष्यः अस्ति तत् ब्रह्मरूप एव अस्ति इति अस्ति समीचीनं भगिनी समीचीनं समीचीनम् तर्हि अस्मिन् परिच्छेदे इतोपि गाढतया जीवात्मनः परमात्मनः भेदः कः इत्येव अत्र दत्तमस्ति जीवात्मनः परमात्मनः भेदः कः इति अत्र दत्तमस्ति यथा तत्र सगुणब्रह्मणः अपि भूमामनः वर्तते एवं मनुष्याणामपि अन्तःकरणं वर्तते तर्हि तेन अन्तःकरणेन वयम् अग्रे वयम् अग्रे गन्तुं शक्नुमः सगुणब्रह्मणा इयं सृष्टिः रथिता येन एकोऽहं बहु स्याम् इति तस्य सङ्कल्पः आसीत् तर्हि सः एकः आसीत् इदानीं बहुलरूपेण सः आविर्भूतः यदा मनुष्याणां मनः मनः मनं मनः वयं पश्यामः तदानीं मनुष्यस्य मनसः बहिः तस्य शहि शरीरं वर्तते शरीरं वर्तते परन्तु सगुणब्रह्मणः विषये वयं पश्यामः चेत् तस्य मनः वर्तते परन्तु तस्य शरीरं नास्ति तस्य तस्य शरीरस्य आवश्यकता नास्ति यतोहि तत्र सगुणब्रह्मणा पञ्चभूतानि सगुणब्रह्मणा निर्मितानि इत्युक्ते सगुणब्रह्मणः चित्ते तत्सर्वं जायमाना अस्ति सृष्टिः जायमाना अस्ति तर्हि तस्य कृते शरीरस्य आवश्यकता नास्ति तस्य मनसः आश्रयः आश्रयः शरीरं नास्ति सगुणब्रह्मणि अन्यत् किमपि अन्य अन्य सगुणब्रह्मविहाय अन्यसत्ता नास्ति यत्र इदानीम् अन्यसत्ता अस्ति इति यदा वयं चिन्तयामः तदानीं तेन सत् तया सत्तया पञ्चभूतानि निर्मितानि इति चेत् तदानीं सगुणब्रह्मणः शरीरं भवितुमर्हति परन्तु यतोहि तस्य आश्रयः अन्यसत्ता भवति परन्तु इदानीं तु सगुणब्रह्मणः आश्रयः अन्यसत्ता नास्ति अन्यसत्ता नास्ति इति कृत्वा तत्र सगुणब्रह्मणः मनसः कृते अन्यशरीरस्य आश्रयः न अपेक्षितः अतः सगुणब्रह्मणः शरीरं नास्ति तत्र तत्र भूमा मनसः शरीरं नापेक्षितम् अस्य विषये इतोपि अग्रे वयं पश्यामः अत्र जीवात्मनः परमात्मनः भेदः कः इति परन्तु अत्र सारांशरूपेण मनुष्याणां वयं पश्यामः चेत् त्रिस्तरीय अस्तित्वमस्ति मनुष्याणां शारीरिक अस्ति अस्तित्वमस्ति मानसिक अस्तित्वम् अस्ति आध्यात्मिक अस्तित्वम् अस्ति तर्हि अत्र योगनिष्ठजीवने वयं प्रत्येकस्मिन् स्तरे किं करणीयम् इति अस्माभिः पूर्वं बहुवारं चर्चितं तर्हि अत्र यत्किमपि वयं कुर्मः आध्यात्मिकजीवने त्रिस्तरीयं त्रिस्तरीय अस्तित्वम् अस्ति इति मत्वा एव वयं सर्वं कुर्मः त्रिस्तरीयम् अस्तित्वम् अस्ति इति कृत्वा तत्र मनुष्येषु तत्र मनः मनः अस्ति मनसि चैतन्यस्य प्रतिबिम्बः अपि वर्तते मनुष्याणां शरीरमस्ति मनः वर् वर्तते यस्य कस्यापि शरीरमस्ति मनः वर्तते मनुष्यशरीरं मनुष्यमनः वर्तते, वर्तते, वर्तते। तर्हि सः अग्रगतिं प्राप्तुं शक्नोति यदा ए एतादृशमनुष्यशरीरं मनः न ना वर्तते चेत् तदानीम् अग्रगतिः अपि न भवति अस्माकं इत्युक्ते तत्र दशवादनात् द्वादशवादनवादनपर्यन्तं अग्रगतिः न भवति तस्य सगुणब्रह्मणः तु मनः वर्तते परन्तु पाञ्चभौतिकशरीरं नास्ति यतोहि सगुणब्रह्म कारणरहितं वर्तते अनादिः अस्ति सगुणब्रह्म अनादिः अस्ति अनन् अनन्त अनन्तमस्ति तस्य तं विहाय अन्यसत्ता नास्ति इति कृत्वा तस्य शरीरस्य अपेक्षा नास्ति अतः सगुणब्रह्मणः शरीरं नास्ति यथा अस्माकम् अस्ति यदि सगुणब्रह्म अन्यसत्ता अन्यसत्तायाम् अस्ति तस्य अस्तित्वं तदानीं शरीरम् अस्ति वा इति चिन्तनं कर्तुं शक्नुमः परन्तु सगुणब्रह्म कारणरहितमस्ति तस्य कारणकार्य कार्यकारणभावं अस्ति सगुणब्रह्म इति कृत्वा इति कृत्वा तस्य शरीरं नापेक्षितं शरीरं नास्ति सगुणब्रह्मणः कल्पनायां <kulpana> वयं स्मः प्रगुण यदा प्रकृतेः प्रभावः पुरुषस्य उपरि भवति तदानीं कल्पना जायते तस्य मन सगुणब्रह्मणः मनसि विचारतरङ्गः जायते येन सृष्टिः जायते तर्हि वयं सर्वे अपि तस्मिन् ब्रह्मणि ब्रह्मणः मनसि वयं सर्वे स्मः एतत् सर्वं तु कल्पना अस्ति अस्माकं कृते तु सगुणब्रह्मणः सगुणब्रह्मणः कल्पनायां अस्माकं शरीरं वर्तते मनसः आधारः शरीरं वर्तते आधारः शरीरं वर्तते परन्तु सगुणभ्रमणः शरीरस्य आवश्यकता नास्ति अत्र स्पष्टमस्ति वा कोऽपि प्रश्नः अस्ति वा अस्तु तद्विध इतोपि अग्रिमपरिचयं प्रति गच्छामः इदानीं चित्रपद्नि पठितुम् नमस्कारः नमस्कारः पठितुमिच्छति वा आम् अग्रिमकक्षायां पठिष्यामि अस्तु अस्तु समीचीनम् अस्तु तर्हि सरिताभगिनी स्वीकरोतु चरिता भगिनी अस्ति वा भगिनी सुचित्रा भगिनी अत्र किं सङ्कोचः अस्ति वा पठनार्थम् भवत्याः सम्भाषणे तु सम्यक् अस्ति त्रयासं करोमि यथा शगुणब्रह्मणा स्वविचारतरङ्गेषु जगत् निर्मितं तथैव मनुष्याः अपि स्वविचारतरङ्गेषु प्रष्टुं शक्नुवन्ति प्रयागनगरे उपविश्य रामस्य कल्पनायाम् अथवा विचारतरङ्गेषु रामस्य चान्दनीचौक् नगरस्य सृष्टेः क्षमता केवलं क्षणिका एव केवलं तस्य कृते एव वास्तविकम् च दृश्यते इति वयं पूर्वम् दृष्टवन्तः अन्यपक्षे तु सगुणब्रह्मणः जगतः सृष्टिः वास्तविकी दृश्यते न तु क्षणिकी एवमस्ति यतोहि मनुष्याः सगुणब्रह्मणः सृष्टेः अंशत्वेन विचार विचारप्रक्षेपणरूपेण निर्मिताः तेषां तेसा शेषसृष्ट्या सह सापेक्षिकं अस्तित्वम् अस्ति सगुणब्रह्म स्वस्य विचारप्रक्षेपणं वास्तविकम् इति पश्यति अतः तस्मिन् विद्यमानेन जीवात्मना स्वाभाविकतया वास्तविकम् इति अनुभूयते अतः मनुष्याः सगुणब्रह्मणः विचारप्रक्षेपणं यथा विचारप्रक्षेपणं तथा तस्य जगत्सृष्टिं च यथार्थं मन्यन्ते रामस्य मनः तथा च तस्य प्रक्षेपणं स्वकल्पनायां सीमितं भवति रामस्य मनसः अन्ते श्यामस्य मनः कार्यं न करोति रामस्य मनसि ये कल्पिताः विषयाः निर्मिताः ते विषयाः केवलं द्रष्टुं शक्यन्ते रामेणैव राम रामेण नैव द्रष्टुं शक्यन्ते यावत्कालं पश्यन् रामः कल्पनावशे तिष्ठति तावत् रामः एव तान् विषयान् वास्तविकान् इति मन्यते श्यामस्य मनः रामस्य मनः सह अन्तः नास्ति अतः श्यामः एतान् विषयान् वास्तविकानिति न अनुभवति यदि श्यामस्य मनः रामस्य मनसः अन्तर्वर्तते तर्हि श्यामः रामस्य मनसः विचारतरङ्गेषु चान्दनीचौक् नगरस्य सृष्टिं दृश् दृष्टवान् स्यात् अपि च रामः इव चान्दनीचौक् नगरम् इति कल् काल्पनिकसृष्टिम् अपि तथ्यात्मकं मन्यते यथा उदाहरणत्वेन पूर्वं दृष्टं यत् मनुष्यः स्वस्य मनः विस्तारयितुम् अथवा प्रक्षेपयितुं शक्नोति येन परस्य मनः स्वस्य गोचरस्य अन्तः आनेतुं शक्नोति तस्मिन् समये अन्ये तस्य मनुष्यस्य कल्पनां दृष्ट्वा मायाविनः रज्जु युक्तिः वास्तविकं मन्यन्ते अत्र दत्तमस्ति किञ्चिदुपरि नेतुं शक्यते वा भगिनी एतत् जगत् निर्मितमस्ति सगुणब्रह्मणस्य कल्पनायां सगुणब्रह्मणः कल्पनायां तत् तस्य विचारतरङ्गेषु एव एतत् जगतमस्ति कथम् एतत् विचारे अस्ति चेत् वयं तु एतद् प्रत्यक्षतया अनुभवामः प्रतिदिनम् अतः तत् कथं कल्पना इति भवितुम् अर्हति इति चिन्तनमस्ति चेत् एकम् उदाहरणम् अत्र दत्तमस्ति कश्चन पुरुषः अस्ति रामः सः प्रयाग्नगरे उपविश्य कल्पनां करोति अन्य एकनगरस्य चान्दनीचौक् इति नगरस्य कल्पनां करोति तस्य मनसि एव एतदस्ति एतद् अन्यकोपि तस्य मनसि किम् अस्ति तद् अन्यकोपि चिन्तितुं वा द्रष्टुं वा न शक्यते परन्तु इदानीं यद्वयं पूर्वम् उक्तवन्तः सगुणब्रह्मणः कल्पना एव सृष्टिः तत्तु प्रत्यक्षरूपेण अस्माकम् अनुभूतिः अस्ति परन्तु रामस्य कल्पना केवलं रामस्य कृते एव सत्यं भवति न तु अन्यस्य कृते तत्तु नास्ति वास्तविकीकृत्य तत्तु न दृश्यते अन्यकस्य समीपे अतः एतत् कथम् इति चिन्तयामः चेत् तत्र भेदः वर्तते सगुणब्रह्मणः यद् कल्पना अस्ति रामस्य यत् कल्पना अस्ति तत्र भेदः वर्तते तत्र एतत् किम् अहं न अवगतवती शेषसृष्ट्या सह सापेक्षिकम् आसीत् तदहं न अवगतवती अन्यत् सगुणब्रह्मस्य विचारप्रक्षेपणम् अस्ति तद्वयं सर्वं अस्माकं दैनन्दिनजीवने अनुभवामः अतः तस्य कोऽपि संशयः नास्ति एतत् कल्पना इति अस्माकमपि चिन्तनमपि न भवति एतत् सर्वं तु प्रकृतरीत्या चलति एव वयं चिन्तयामः तत्र अन्य एक उदाहरणस्य विषये एकविषयमस्ति तत्र रामस्य मनसि यद् कल्पना भवति तद् अन्यकोपि मनुष्यः भवतु स्यामः इति अस्ति चेत् सः तस्य मनसि रामस्य मनसि किं प्रचलन् अस्ति तत् सः जा ज्ञातुं न शक्यते रामस्य मनस्य कल्पना केवलं रामस्य एव सत्यं भवति न तु अन्यकस्य समीपे एता परन्तु परब्रह्मणस्य कल्पना तु सर्वेषां कृते एव वास्तविकी इति वर्तते वास्तविकमिति तादृशं अन्य किमस्ति तत्र अतः मनुष्यस्य यद् विचारमस्ति तत्तु केवलं यः मनुष्य तस्य विचारमस्ति सः एव तत् अनुभवति न तु अन्यमनुष्याः परन्तु सगुणब्रह्मस्य यद्विचारप्रक्षेपणमस्ति तत् सर्वेषां कृते वास्तविकी अपि ते चिन्तन् चिन्तयन्ति अनुभवन्ति अपि तदेव भगिनि सम्यक्तया सर्वम् उक्तवती बहु समीचीनं भगिनी धन्यवादः भवत्या भाषणमपि सम्यगेव अस्ति सम्यक् धन्यवा भवती भवती स्वयं पाठयितुं शक्नोति अस्तु <laughs> <laughs> <laughs> समीचीनम् इत्युक्ते तत्र यः प्रश्नः आसीत् भवत्याः इत्युक्ते शेषशिष्ट्या इत्युक्ते इत्युक्ते जगतः सापेक्षिकसत्यत्वम् अस्ति यतोहि जगत्तु ब्रह्मणः ब्रह्मणः मनसि कल्पना वर्तते इति कृत्वा तस्य सापेक्षिकसत्यत्वं वर्तते कल्पना अस्ति ब्रह्म मनसि कल्पना अस्ति परन्तु कल्पनायां ये यानि नाम रूपाणि सन्ति तानि रूपाणि वास्तविकानि न सन्ति परन्तु ब्रह्मणि कल्पना अस्ति अतः जगतः वा सापेक्षिकसत्यत्वं तु अस्ति जगत् मिथ्या इति नो न वक्तुं शक्यते सापेक्षिकसत्यत्वम् अस्ति तर्हि शेषश्रिस्त्या सह इत्युक्ते वयं सर्वे भ्रमणः कल्प मनसि कल्पनायां वयं वयं स्मः तर्हि यथा मम अस्तित्वं तथा भवत्याः अस्तित्वं तर्हि शेषश्रिस्त्या सह इत्युक्ते तत् रेस्ट् द क्रियेशन् अस्माकं सापेक्षिकसत्यत्वम् अस्ति परन्तु वयं सर्वे तु परमपुरुषस्य चित्ते कल्पनारूपेण वयं स्मः यथा मम मम कल्पना अस्ति चेत् मम कृते सा कल्पना वास्तविकी भवति यावत्पर्यन्तं कल्पना अस्ति तावत्पर्यन्तं वास्तविकी भवति तां कल्पनां भवती भवती तु न ज्ञातुं शक्नोति परन्तु मम कृते तु सा कल्पना वास्तविकी अस्ति एवं स्वगुणब्रह्मणः मनसि कल्पना जायमाना अस्ति इति कृत्वा वयं सर्वे सगुणब्रह्मणः मनसि स्मः अतः सगुणब्रह्मणः कृते कल्पना तु वास्तविकी अस्ति वास्तविकी अस्ति इति कृत्वा अस्माकं कृते अपि वास्तविकी इति भाति वास्तविकी अस्ति इति भाति इत्युक्ते तदर्थमेव वयं लोके यत्किमपि पश्यामः तत्तु वास्तविकरूपेण एव वयं पश्यामः पश्या तत्र मिथ्या अस्ति इति न अत्र तु जगतः सापेक्षिकसत्यत्वम् अस्ति जगतः सम्पूर्णतया निराकरणं न शक्यते यतो हि ब्रह्मणि कल्पना तु जायमाना अस्ति तदर्थं तत्र उदाहरणमपि अत्र दत्तमस्ति अत्र स्तरत्रये अत्र दत्तमस्ति यः विषयः प्रतिपादितः सः स्तरत्रये प्रतिपादितः अस्ति तर्हि प्रथमं तु सगुणब्रह्मणि स्वस्य चित्ते कल्पना अस्ति यत्र सर्वं जगत् वर्तते इति एकः स्तरः अग्रिमस्तरः यद् अस्माभिः पूर्वं यत् पूर्वम् अस्माभिः पठितमासीत् यः ऐन्द्रजालिकः अस्ति यस्य वशे ये जनाः सन्ति ते जनाः ऐन्द्रजालिकस्य मनसि यः या कल्पना अस्ति तां कल्पनां ते पश्यन्ति ते तु वशीभूताः सन्ति ऐन्द्रजालिकस्य वशे सन्ति तेषां तेषां ये मनुष्याः सन्ति ऐन्द्रजालिकस्य वशे तेषां यानि चित्तानि सन्ति तेषाम् अपि नियन्त्रणम् ऐन्द्रजालिकेन कृतम् अस् अस्ति अतः ऐन्द्रजालिकेन यत् प्रदर्शितं तदेव ते पश्यन्ति इति अन्यः स्तरः अपि च अन्ततो यदि मनुष्यः स्वयं कल्पनां करोति स्वस्य मनसि तदानीं केवलं सः एव द्रष्टुं शक्नोति अन्यः द्रष्टुं न शक्नोति ऐन्द्रजालिकस्य कल्पना अपि यावत्पर्यन्तं तस्य कल्पना प्रचलति तावत्पर्यन्तमेव जनाः द्रष्टुं शक्नुवन्ति यदा मनुष्याः कल्पनां करो मनुष्याः कुर्वन्ति तदानीमपि यावत्पर्यन्तं तेषां कल्पना इत्युक्ते कल्पना प्रायेण किञ्चित् कालमेव भवति सर्वदा भवति इति नास्ति तावत्पर्यन्तं कल्पनायां ये विषयाः अनुभूताः ते, ते अवगच्छन्ति अनुभू परन्तु अन्यः मनुष्यः तां कल्पनाम् अवगन्तुं न शक्नुवन्ति अत्र सगुणब्रह्मणि यद्यपि कल्पना अस्ति परन्तु सा कल्पना विलक्षणा अस्ति सा कल्पना अस्ति तस्य सापेक्षिकसत्यत्वम् अस्ति तस्य निराकरणं न शक्यते तस्य निराकरणं न शक्यते अत्र योगे तु जगत् वर्तते जगत् वर्तते तस्य सापेक्षिकसत्यत्वं वर्तते यतोहि ब्रह्मणि कल्पना जायमाना अस्ति अतः कल्पना नास्ति इति वक्तुं न शक्यते कल्पना जायमाना अस्ति सृष्टिः अस्ति तस्य कल्पनायाम् इति कृत्वा जगतः सापेक्षिकसत्य सत्यत्वं वर्तते इति इति कृत्वा एव अत्र अत्र अस्माकं विषयः कः इति चेत् आत्मनः मोक्षाय जगतः हितम् इति अपि अपेक्षितम् अस्ति यावत्पर्यन्तं जगतः हितं न कुर्मः तावत्पर्यन्तम् अस्माकं वर्धनं न भवति द्वयमपि अपेक्षितमस्ति आत्मनः मोक्षः जगतः हितं जगद्दिताय आत्मनो मोक्षाय जगद्दिताय इति अत्र द्व स्तरद्वयमस्ति आत्ममोक्षः अपि आत्मनः मोक्षः अपि अपेक्षितः अपि च जगतः हितमपि अपेक्षितमस्ति द्वयमपि अपेक्षितम् यतोहि जगतः सापेक्षिकसत्यत्वं तु अस्ति इति अत्र योगसिद्धान्तः वर्तते अत्र स्थगनं कुर्मः कोऽपि संशयः अस्ति वा अस्तु तर्हि अत्र विरममः धन्यवादः नमस्कारः धन्यवादः भगिनि धन्यवादः नमस्कारः